गणेशपुराणम् उपासनाखण्डम् अध्यायम् इलवन् भृगुरुवाच जगादभूयश्चतुराननस्तमेवं कृतप्रश्नविवक्षयाध क्रमेण सर्वं कथयामि तेहं गणेशमन्त्रान् बहुधा विचार्य ब्रह्मोवाच अनन्ताहि मुने किन्जी किन्जी मुने मन्त्रागणेशस्य महात्मनः उपासनं वदिष्यामि शीघ्रं सिद्धिकरस्य ते सप्तकोटिमहामन्त्रागणेशस्यागमे स्थितः तद्रहस्यं शिवो वेद किञ्चित् किञ्चिदहं मुने षडक्षरैकाक्षरयोश्रेष्ठत्वं तेषु विद्यते ययोस्मरणमात्रेण सर्वसिद्धिकरे भवेद जीवन्मुक्ता भवन्त्येव यदुपासनया मुने त एव धन्यास्ते पूज्यास्ते नमस्या सुरैरपि यदुपासनया दास्यं येषां कुर्वन्ति सिद्धयः इच्छाविहारा सर्वज्ञा नानारूपा भवन्ति ते ये कुर्वन्ति गणेशस्य भक्तिं भावसमन्विताः न येषां भक्तिलेशोऽपि तेषां जन्मनिरर्थकम् नालोकयेन्मुखं तेषां विमुखा ये गजानने तेषां दर्शनमात्रेण विघ्नानि स्युःपदे पदे, पदे। विघ्नान्युपशमं यान्ति तदुपासकदर्शनाद नमस्यन्ति च भूतानि स्थावराणि चराणि च अतस्तेहं प्रवक्ष्यामि मन्त्रमेकाक्षरं शुभं तदनुष्ठानमात्रेण वाञ्छितं समवाप्स्यसि अनुष्ठानं प्रवक्ष्यामि यथोक्तं शम्भुना स्नानं कृत्वा स्ना धौधव पिधा चुचिनर चैलाजन कुश्वास साधकसुदी तस्वशुद्धि प्राणन तथा अन्धर्बहिर्मातृकाणां न्यासं कृत्वा त्वतन्द्रितः प्राणायामं तथा कृत्वा मूलमन्त्रं जपन्हृति मन्त्रसन्ध्यामुपासीद अगमोक्तां यथाविधि आपादमस्तकं देवं ध्यात्वा निश्चलचेदसा पूजये सुसमाहितः तदो जपेद्यथाशक्रिपुरश्चरणमार्गदः अनुकूलो भवेद्यावद्वरं दातुं गजाननः स्वरूपं दर्शयेद्यवत् तावज्जपरो भवेत् भृगुरुवाच एवमुक्त्वा मुनिं ब्रह्मा विलोक्य शुभवासरं एकाक्षरं मन्त्रराजमेकार्णवं गणपस्य च अशिक्षयत्तदा सर्वं सम्भ्रान्तं मुनिसत्तमं ब्रह्मोवाच सूर्यकोडिप्रदिकाशं वरं दातुं समागमद यदा देवं तदाचित्तं चित्तं स्थिरीकुरु ममैव हृदये नित्यं स्थिरो भवगजानन या च वरं तस्मात् सदे दास्यत्य हृदि स्थिते दे तत्र देवे दिव्यं ज्ञानमवाप्स्यसि भूदम्भावि भवत्कैव ज्ञास्यसि त्वमशेषतः हित्वा भ्रान्तिं दृढां वत्स नानाग्रन्थान् करिष्यति व्यास उवाच गदाभ्रान्तिर्ममपि दुरुपदेशे कृते त्वया अनुष्ठानं करिष्यामि पितामह तवाज्ञया ब्रह्मोवाच एकान्ते निर्जने देशे व्यग्रदाहेदुवर्जिते अनुष्ठानं गुरुविभो गजाननमनुस्मरन् नास्तिके निंदके क्रूरे नस्ति केंदक्रूरे नाचार्ये न ना वक्तव्यो दृढ शरण दृढ़भक्त धाने विनी वेदवादी साे निरुक्रोश्ये शास्त्रज्ञे च प्रकाशय प्रापयत्येव नरकान् दश पूर्वान् दशापरान् मन्द्रराजस्तु वक्तारमप्रकाश्ये प्रकाशितः यो जयेद्भक्तिपूर्वं तु सलभे दीप्सितं फलं पुत्र पौत्रसमुक्तनधान्य सन्वि यह प्रभाव लब्ध्वाज सुनल इह भुक् भोगाने मोक्षमुयाद यीगणेशणे उपासनाखंडे मंत्रकशोध्याय ॐ